एकाधिकशततमोऽध्यायः वैशम्पायन उवाच चेदिराजसुताम् ज्ञात्वा दाशराजेन वर्धिताम् विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ततो विवाहे निर्वृत्ते सराजा राजा शान्तनुर्नृपः ताम् कन्याम् रूपसम्पन्नाम् स्वगृहे सन्न्यवेशयत् ततः शान्तनवो धीमान् सत्यवत्यात्मजायत वीरश्चित्रागदो नाम वीर्यवान् पुरुषेश्वरः अथा परम् महेश्वासम् सत्यवत्यां प्रभुः विचित्रवीर्यम् राजानम् जनयामासवीर्यवान् अप्राप्तवति तस्मिंस्तु यौवनम् पुरुषर्षभे स राजा शान्तनुर्धीमान् स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् स्थापयामास वैराज्ये सत्यवत्या मते स्थितः स तु चित्राङ्गदशौर्यात् सर्वान्स्विक्षेप पार्थिवान् मनुष्यम् न हि मेनेस कञ्चित्सदृशमात्मनः तम् क्षिपन्तम् सुरांश्चैव मनुष्यानसुरांस्तथा गन्धर्वराजो बलवान्स्तुल्यनामाभ्ययात्सदा गन्धर्व उवाच त्वम् वै सदृशनामासि युद्धम् देहि नृपात्मज नाम चान्यत्प्रगृणीष्व यदि युद्धम् न दास्यसि त्वयाहं युद्धमिच्छामि त्वत्सकाशात्तु नामतः आगतोऽस्मि मृधा भाष्यो यथा तेनास्य सुमहद्युद्धम् कुरुक्षेत्रे बभूवः तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययो द्यास्तीरे सरस्वत्याः समास्तित्रो भवदृणः तस्मिन् विमर्दे तुमुले शस्त्रवर्षसमाकुले मायाधिकोऽवधीत्वरम् गन्धर्वः कुरुसत्तमम् सहत्वा तु गंधर्वो अंतायो दिवक्रमे तत तस्पुषादूलेहते भूरी तेजसी भीष्म शातन वो राजेतियाण्यकारिवी तलम्रातवनमुराज्य महाबाभ्यषिंचदनतरम विचिवीर्य सतदा वचने स्थित अन्वशासन्महाराज पितृपैतामहम् पदम् सधर्मशास्त्रकुशलम् भीष्मम् शान्तनवम् नृपः पूजयामास धर्मेण स चैनम् प्रत्यपालयत् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि चित्राङ्गदोपाख्याने एकाधिकशततमोऽध्यायः